सिच्यमानोऽवसौघैस्तैः प्राणिनाम् देहनिःसृतैः प्रज्ज्वालाथ सोर्चिष्मान् स्वनादैः पूरयन् जगत् कृष्णाभ्याम् रक्षितम् दृष्ट्वा तम् च दावमहङ्कृताः खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्रिणः गरुत्मान वज्रसदृशैः पक्षतुण्डनखैस्तथा प्रहर्तुकामोऽन्यपतदाकाशात् कृष्णपाण्डवौ तथैवोरगसङ्घाताः पाण्डवस्य समीपतः उत्सृजन्तो विषम् घोरं निपेतुर्ज्वलिताननाः तांश्च कर्तशरैः पार्थः सरोषाग्निसमुक्षितैः विविशुश्चापितं दीप्तं देहाभावाय पावकम् अतोऽसुराः स गन्धर्वा यक्षराक्षसपन्नगाः उत्पेतुर्नादमतुलमुत्सृजन्तोरणार्थिनः